ष्टमः सर्गः <laughs> रामस्तु सः सौमित्र्यः सुतीक्ष्णेणाभिपूजितः परिणाम्यनिशाम् तत्र प्रभाते प्रत्यबुध्यत उत्थाय च यथा कालम् राघवः सह सीतया उपस्पृश्य सुशीतेन तो येनोत्पलगम्भिना अथ ते रामलक्ष्मणौ काल्यम् विधिवदभ्यर्च्य तपस्विशरणे वने उदयं तम् दिनकरम् दृष्ट्वा विगतकल्मषाः सुतीक्ष्णमभिगम्येदम् श्लक्ष्णम् वचनमब्रुवन् सुखोषिता स्म भगवन्स्त्वया पूज्येन पूजिताः आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः त्वरामहे ऋषीणाम् पुण्यशीलानाम् दण्डकारण्यवासिनाम् अभ्यनुज्ञातुमिच्छामः सहैर्भिर्मणिपुङ्गवैः धर्मनित्यैस्तपो दान्तैर्विशिखैरिवपावकैः अविषह्यातपो यावत् सूर्यो नातिविराजते अमार्गेणागताम् लक्ष्मीम् प्राप्येवान्वयवर्जितः तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः भवन्दे सह सौमित्रिः सीतया पश्याश्रमपदम् रम्यम् दण्डकारण्यवासिना येषाम् तपस्विनाम् वीरतपसाभावितात्मना सुप्राज्यफलमूलानि पुष्पितानि वनानि च प्रशस्तमृगयूथानि शान्तपक्षिगणानि च फुल्लपङ्कजखण्डानि प्रसन्नसलिलानि च कारण्डव विकीर्णानि तटाकानि सरांसि च द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रश्रवणानि च रमणीयान्यरण्यानि मयूराभिरुतानि च गम्यताम् वत्स सौमित्रे भवानपि च गच्छतु आगन्तव्यम् च ते दृष्ट्वा पुनरेवाश्रमम् प्रति एव काकुत्स्थः सः लक्ष्मणः प्रदक्षिणम् मुनिम् कृत्वा प्रस्थातुमुपचक्रमे ततः शुभतरेतूणी धनुषी चायते क्षणा ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः आबध्य च शुभे तूणी चापे चादायसस्वने निष्क्रान्तावाश्रमाद्गन्तुमभूतौ रामलक्ष्मणौ शीघ्रन्तौ वनुज्ञातौ महर्षिणा प्रस्थित धृतचापासी सीतया सह राघव इशे श्रीमद्राणे वाक आदि का्ये अष्ट सर्ग